नारदपुराणं पूर्वार्धं अध्यायं 34 नारद उवाच समाख्यातानि सर्वाणि योगाङ्गानि महामुने मपि सर्वज्ञ यत्पृच्छामि तदुच्यतां योगो भक्तिमदामेव सिध्यतीदि त्वयोदितं यस्य तुष्यति सर्वेष्यस्तस्य भक्तिश्च शाश्वतं यथा तुष्यदि सर्वेषो देवदेवो जनार्दनः तन्ममाख्याहि सर्वज्ञमुने कारुण्यवारिधे सनक उवाच नारायणं परं देवं सच्चिदानन्दविग्रहम् भज सर्वात्मना विप्र यदि मुक्रिम मुक्तिमभीप्सी रिपवस्तं न हिंसन्दी न बाधन्ते ग्रहाश्च तं राक्षसाश्च न चेक्षन्दे नरं विष्णुपरायणम् भक्तिर्दृढा भवेद्यस्य देवदेवे जनार्दने श्रेयांसि तस्य सिद्ध्यन्ति भक्रीमन्दोऽधिकास्तदः पादौ तौ सफलौ पुंसां यौ विष्णुगृहगामिनौ तौ करौ सफलौ ज्ञेयौ विष्णुपूजापरौ तु यौ ते नेत्रे सुफले पुंसां पश्यदो ये जनार्दनम् सा जिह्वा प्रोच्यते सद्भिर्हरिनाम परा तु या सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते तत्त्वं गुरुसमं नास्ति न ना देव केशवात्परः सत्यं वच्मि हितं वच्मि सारं वच्मि पुनः पुनः असारे स्मिंस्तु संसारे सत्यं हरिसमर्चनम् संसारपाशं सुदृढं महामोहप्रदायकं हरिभक्तिकुठारेण चित्वात्यन्तसुखी भव तन्मनः संयुतं विष्णौ सा वाणी यत्परायणा ते श्रोत्रे तत्कथा सारपूरिते लोकवन्दिते आनन्दमक्षरं शून्यमवस्थात्रितयैरवि आकाशमध्यगम् देवम् भज नारदसन्ततं स्थानं न शक्यते यस्य स्वरूपं वा कदाचन निर्देष्टुं मुनिशार्दूलद्रष्टुम् वाप्य कृतात्मभिः समस्तैकरणाैर्युक्तो वर्तते सौ यदा तदा जाग्रदित्युच्यते सद्भिरन्तर्यामि सनातनः यदान्धकरणाैर्युक्तस्वेच्छया वितरत्य सौ स्वपन्नित्युच्य देह्यात्मा यदा स्वापविवर्जितः न बाह्यकरणैर्युक्तो न चान्धकरणैष्टथा अस्वरूपो यदात्मा सौ पुण्यापुण्यविवर्जितः सर्वोपाधिविनिर्मुक्तो ह्यानन्दो निर्गुणो विभुः परब्रह्ममयो देवः सुषुप्त इति भावनामयमेदद्वै जगस्थावरजङ्गमं विद्युद्विलोलं विप्रेन्द्र भजतस्माज्जनार्दनम् अहिंसा सत्यमस्तेयं ब्रह्मचर्या वर्तन्ते यस्य तस्यैव तुष्यते जगतां पतिः सर्वभूतदयायुक्तो विप्रपूजा परायणः तस्य तुष्टो जगन्नाथो मधुकैढभमर्दनः सत्कथायां च रमदे सत्कथां च करोति सत्संगो निरहङ्कारस्तस्य प्रीतो रमापदिः नामसङ्कीर्तनं क्षुत्र क्षुतृप्रस्खलितादिषु करोति सततं यस्तु तस्य प्रीतो ह्यथोक्षजः यादु नारी पदिप्राणा पदि तस्यास्तुष्टो जगन्नाथो ददादि स्वपदं मुने असूयारहिताये दुह्यहङ्कारविवर्जिताः देवपूजा पराश्चैव तेषां तुष्यदि केशवः तस्माच्छृणुष्वदेवर्षे भजस्व हरिं मा विद्युल्लोलश्रिया वृद्धा शरीरं मृत्युसंयुक्तं जीवनं चादिचञ्चलं राजादिभिर्धनं बाध्यं सम्पदः क्षणभङ्गुराः किं न पश्यसि देवर्षे ह्यायुषार्धं तु निद्रया हतं च भोजनाद्यैश्च दायुःसमाहृतं कियदायुर्बालभावाद्वृद्धभावात् कियद्वृद्धा कियद्विषयभोगैश्च कदा धर्मान् करिष्यति बालभावे च वार्धक्ये न खेताच्युतार्चनं वयस्येव ततो धर्मान् कुरु त्वमनहङ्कृतः मा विनाशं व्रज मुने मग्नसंसारगह्वरे वपुर्विनाशनिलयमापदां परमं पदम् शरीरं भोगनिलयं मलाध्यैपरिदूषितं किमर्थं शाश्वतधिया कुर्यात्पापम् नरो वृथा असारभूते संसारे नाना समन्विते विश्वासो नात्र कर्तव्यो निश्चितं मृत्युसङ्कुले तस्माच्छृणुष्व विप्रेन्द्रसत्यमेतत् ब्रवीम्यहं देहयोगनिवृत्त्यर्थं सद्य एव जनार्दनम् मानं त्यक्त्वा तथा लोभं कामक्रोधविवर्जितः भजस्व सततं विष्णुम् मानुष्यमधि दुर्लभम् कोटिजन्मसहस्रेषु स्थावरादिषु सत्तम सम्भ्रान्तस्य तु मानुष्यं कथञ्चित् परिलभ्यते तत्रापि देवदा बुद्धिर्दानबुद्धिश्च सप्तम भोगबुद्धिस्तथा भोग नृणाम् जन्मान्तरतभः फलम् मानुष्यम् दुर्लभम् प्राप्य यो हरिम् नार्चयेत् सकृत मूर्ख कोऽस्ति परस्तस्माज्जडबुद्धिरचेतनः दुर्लभम् प्राप्य मानुष्यम् नार्चयन्ति चये हरिं तेषामदीव मूर्खाणां विवेकः कुत्र तिष्ठति आराधितो जगन्नाथो ददात्यभिमदं फलं कस्तं न पूजयेद्विप्र संसाराग्निप्रदीपितः चण्डालोऽपि मुनिश्रेष्ठ विष्णुभक्तो द्विजाधिकः विष्णुभक्तिविहीनश्च द्विजोऽपि स्वपचाधमः तस्मात् कामादिकं त्यक्त्वा भजेद हरिमव्ययं यस्मिन् स्तुष्टेऽखिलं तुष्येद्यद सर्वगतो हरिः यथा पदे सर्वं पदमात्रं प्रलीयते तथा विश्वं विष्णवेव प्रलीयते आकाशेन यथा व्याप्तं जगस्तावरजङ्गमं तथैव हरिणा व्याप्तं विश्वमेतच्चराचरम् जन्मनो मरणं नृणां जन्म वै मृत्युसाधनम् उभेते निकटे विद्धि तन्नास्यो हरिषेवया ध्यादस्मृतः पूजितो वा प्रणतो वा जनार्दनः संसारपाशविच्छेदि कस्तम् न प्रतिपूजयेत् यन्नामोच्चारणादेव महापादकनाशनम् यम् समभ्यर्च्य विप्रर्षे मोक्षभागी भवेन्नरः अहो चित्रमहो चित्रमहो चित्रमिदं द्विज हरिनाम्नि स्थिते लोकसंसारे परिवर्तते भूयो भूयोऽपि वक्ष्यामि सत्यमे दत्तपोधन नियमानो यमभटैरशक्तो धर्मसाधनैः यावन्नेन्द्रियकैवल्यं यावद्व्याधिर्न बाधते तावदेवार्चयद्विष्णुं यदि मुक्तिमभीप्सति मा यदा जन्तुस्तथैव च मृत्युः सन्निहितो भूयात् तस्माद्धर्मपरो भवेत् अहो कष्टमहो कष्टमहो कष्टमिदम् बहुः विनश्वरम् समाज्ञाय धर्मम् नैवाचरत्ययम् सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते दम्भाचारं परित्यज्य वासुदेवं समर्चयेत् भूयो भूयो हितं वच्मि भुजमुद्धृत्य नारद विष्णुः सर्वात्मना पूज्यस्त्याज्यासूया तथा क्रोधमूलो मनस्तापक्रोधसंसारबन्धनं धर्मक्षय करक्रोधस्तस्मात् तं परिवर्जयेत् कामूलमिदं जन्म कामपापस्य कारणं यशः क्षयकर कामस्तस्माद्धं परिवर्जयेत् समस्तदुःख जालानां मात्सर्यं कारणं स्मृतं नरकाणां साधनं च तस्मात्तदपि सन्त्यजेत् मन एव मनुष्याणां कारणं बन्धमोक्षयोः तस्मा तदभि संयोज्य परात्मनि सुकी भवेत् अहो धैर्यमहोद्धैर्यमहो धैर्यमहो धैर्यम नृणां विष्णौ स्थिते जगन्नाथे न भजन्ति मदोद्धताः अनाराध्यजगन्नाथं सर्वधादारमच्युतं संसारसागरे मग्ना कदम्पारं प्रयान्तिः अच्युतानन्दगोविन्दनामोच्चारणभेषजाद नश्यन्ति सकलारोका सत्यं, सत्यं वदाम्यहम् नारायणजगन्नाथवासुदेव जनार्दन इतिरयन्ति ये नित्यं ते वै सर्वत्र वन्दिताः अद्यापिजमुनिश्रेष्ठब्रह्माद्या अपि देवताः यत्प्रभावं न जानन्ति तं याहि शरणं मुने अहो मौर्ख्यमहो मौर्ख्यमहो मौर्ख्यं दुरात्मनां हृत्पत्मसंस्थितं विष्णुं न विजानन्ति नारदत् शृणुष्वमुनि शार्दूलभूयो भूयो वदाम्यहम् हरिश्रद्धावदां तुष्येन्न धनैर्न च बान्धवैः बन्धुमत्वं धनाढ्यत्वं पुत्रवत्त्वं च सत्तमं विष्णुभक्तिमदां नृणां भवेज्जन्मनि जन्मनि पापमूलमयं देह पापकर्मरतस्तर्था यदद् विदित्वा सततं पूजनीयो जनार्दनः पुत्रमित्रकलत्राद्या बहवस्युश्च सम्पदः हरिपूजा रथानां तु भवन्त्येव न संशयः इहामुत्र सुखप्रेप्सुः पूजयेत्सदं हरिम् इहामुत्रा सुखप्रेप्सुः परनिन्दापरो भवेद दिग्जन्मभक्तिहीनानां देवदेवे जनार्दने सत्पात्रदानशून्यं यत्तद्धनं दिक्पुनः पुनः न न मे शरीरं कर्मभेदिने पापानामाकरं तद्वै विज्ञेयं मुनिसत्तम सत्पात्रदानरहितं यद्द्रव्यं येनरक्षितं, रक्षितं चौर्येण रक्षितमिव विद्धिलोकेषु निश्चितं तडिल्लोलश्रिया मत्ताः क्षणभङ्गुरशालिनः नाराधयन्ति विश्वेश्यम् विमोचकम् सृष्टिस्तु विविधा प्रोक्ता हरिभक्रि हरिभक्तियुदा देवी तद्धीनाख्यासुरी महा तस्मात् शृणुष्व विप्रेन्द्र हरिभक्तिपरायणाः श्रेष्ठा सर्वत्र विख्याताय दो भक्तिसुदुर्लभा असूयारहिताय च विप्राणपरायणाः कामादिरहिताय च तेषां तुष्यदि केशवः सम्मार्जनादिनायदु विष्णुशुश्रूषणे सत्पात्रदाननिरदाप्रयाति परमं पदम् इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे हरिभक्तिलक्षणं नाम चतुस्त्रिंशोऽध्यायः ॐ